नापतिमूणावद् दशकम् त्वामे गता गुरुमरुत्पुरनादवोटुम् गाटातिरूटगरिमाणमपारयन्ते मा माता निदाय चयने किमितम् बतेति ज्यायन्त्य चेष्टत गृहेषु निविष्टशङ्कावद्वितुरमुपकर्णितगोरगोष व्याजृम्बिपांसुपटली परिपूरि दाश वात्या वपुस्तकि लदैत्यवरस्तृणा राग्यो जगारजनमानसहारिणम् त्वा उद्दामपांसुतुमिराहदृष्टिपाते द्रष्टुम् किमव्यकुशले पशुबाललोके हा बालकस्य किमिति त्वदुपान्तमाप्ता माता भवन्तमविलोक्य वृषम् रुरोद तावत्स तानववरोऽपि च दीनमूर्ते भारपरिधारणलूलवेक शङ्कोचमापददनुक्षदमांसुगोषे गोषे व्यधायद भवज्जननी निनाद रोतोपकर्णनवसूतुभगम् यगेहम् ग्रन्थत्सुनन्दमुगगोपकुले क्षुधीन त्वाम् दानवस्त्व किल मुक्तिकरम् मुमुक्षो त्वय्य प्रमुञ्चति पपादवियत्प्रदेशात् रोदाकुलास्तदनुगोपगणाबिष्ट पाषाणवृष्टबुविदेहमतिस्तविष्टम् प्रैक्षन्त हन्तनि वदन्त ममुक्ष्य वक्षसे अक्षीणमेव च भवन्तमलम् हसन्तम् ग्रावप्रपातपरिपिष्टगरिष्ठदेह भ्रष्टासु दुष्टदनुजोपरिदृष्टहासम् आज्ञानमम्बुजकरेण भवन्तमेत्य गोपादतुर्गिरिवरादिवनीलरत्नम् एकैकमासु परिगृह्य निकामनन्दन् नन्दाजिगोपप्रदिरब्दविशुम्बिदाङ्गम् आधादुकामपरिशङ्कितगोपनारि हस्ताम्बुजप्रपदितम् प्रणमो भवन्तम् भूयोऽपि किन्नु गृणमप्रणतार्तिकारि गोविन्द एव परिपालयतात्सुतम् इत्यादिमातरः पितृप्रमुखैस्तदानि सम्प्रातितस्त्वदवनाय विभोत्वमेव वातात्मकम् तनुजमेव मयि प्रदून्वन् वादोद्भवान् मम गतान् करोमि पुनरप्यनिलालयेश निशेषरोगसमनम् मुकुरोऽर्तयेत्वा हरे कृष्ण